कृष्णयजुर्वेदे क्रमपाठे सप्तमकाण्डे पञ्चमः प्रश्नः प्रारम्भः ओ वा एतत्सत्रसां दश दशमासाः मासा निषण्णाः निषण्णाः आसन् विषण्णाः इति निसन्नाः वासन् तथा अथ शृङ्गाणि शृङ्गाण्यजायन्त अजायन्तराः ना उत् दतिष्ठन् अतिष्ठन् नरा इत्यथा अथ यासां न नाजायन्त अजायन्तराः ताः संवत्सरम् संवत्सरमाप्त्वा संवत्सरमिति संवत्सरम् आप्तोन् अतिष्ठन् नरा र स्मेति इति यासां यासाञ्च चाजायन्त उदायन्त यासां यासाञ्च च नुदतिष्ठन् अतिष्ठन्नरास्म रस्मेति यदि गोसत्रम् गोसत्रं वै गोसत्रमिति गोसत्रं वै संवत्सरः संवत्सरो ये संवत्सर इति एवम् एवं विद्वांसः विद्वाकंसम्वत्सरम् उपयन्ति संवत्सरमिति संवत्सरम् उपयन्त्यर्ध्वन्ति उभयन्ति इत्यभयन्ते एव तस्मात् तस्मात्तु परा तु परा वार्षिकौ वार्षिकौ मासौ मासौ पर्त्वा पर्त्वा चलति सत्राभिजितं तत्राभिजितं हि तत्राभिजितमिति सत्राभिजितम् यस्यै तस्यैतस्मात् तस्मात् संवत्सरसदः संवत्सरसरसः यत्किं किञ्चप्तम् आप्तमवरुद्धम् अवरुद्धमभिजितम् एते प्रप्लवन्ते प्लवन्ते ये संद्रं। संद्रं। संद्रं ये संवत्सरम् उपयन्ते संवत्सरम् उपयन्त्यः उपयन्ते ज्युलयन्ति यो वै वै समुद्रस्य समुद्रस्य वारम् वारम् पश्यति पश्यति वयि सः सरतः तदुत् उदेशति तस्य तस्यैतत् एतत्पारम् पारण्यत् यदतिरात्रौ अतिरात्रौ ये अतिरात्रा विद्यते रात्रौ यदेवम् एवम् विद्वागुंसः विद्वांसः संवत्सरम् संवत्सरमुपयन्ति संवत्सरमिति संवत्सरम् ीत्युपयन्ति वै वै पूर्वः पूर्वोतिरात्रोऽसौ अतिरात्रैत्य रात्रः असावत्तरः उत्तरो वनः उत्तरैत्रोत्तरः मनस्पूर्वः पूर्वो वाग् वागुत्तरः उत्तरः प्राणः उत्तरैत्रः प्राणस्पूर्वः प्राण इति प्राणः पूर्वोपानः अपानोत्तरः अपान इत्यपानः उत्तरः प्ररोधनम् उत्तरैचिदोदरः प्ररोधनम् पूर्वः प्ररोधनमिति प्रारोधनम् पूर्व उदयनम् उदयनमुत्तरः उदयनमित्युदुदयनम् उत्तरो ज्योतिष्टोमो वैश्वानरः ज्योतिष्टोम इति ज्योतिः स्तोमः वैश्वानरोतिरात्रः अतिरात्रो भवति अधिरात्रः भवति ज्योतिः ज्योतिरेव एव प्रसाद् प्रसाद्दधते स्वर्गस्य स्वर्गस्य लोकस्य स्वर्गस्येति स्वभागस्य योगस्यानख्याति अनख्याति चतुर्विकंशः अनख्यात्या इत्यनख्याति चतुर्विकंशः प्रायणीयः चतुर्विकंश इति चतुर्विकंशः प्रायणीयो भवति प्रायणीय इति प्रायणीयः भवति चतुर्विकंशतिः चतुर्विवंशतिरर्धमासाः चतुर्विंशतिरिति चतुर्विंशतिः अर्धमासाः संवत्सरः अर्धमासाः इत्यर्धमासाः संवत्सरः प्रयन्तः संवत्सर इति संवत्सरः भजन्त एव भजन्त इति प्रायन्तः एव संवत्सरे संवत्सरे प्रति संवत्सर इति संवत्सरे प्रति तिष्ठन्ति तिष्ठन्ति तस्य अस्य त्रीणि शतानि शतानि षष्टिः षष्टिश्च स्तोत्र्याः स्तोत्रीयास्तावतीः तावती संवत्सरस्य संवत्सरस्य रात्रयः संवत्सरस्य इति संवत्सरस्य रात्रयः उभे उभे एव उभे एव संवत्सरस्य संवत्सरस्य रूपे संवत्सरस्य इति संवत्सरस्य रूपे आप्नुवन्ति रूपे इति रूपे आप्नुवन्ति ते ते सङ्गस्थित्यै सर्गस्थित्या अरिष्ट्यै सर्गस्थित्या इति संस्थित्यै अरिष्ट्या उत्तरैः उत्तरैरहोभिः उत्तरैरित्युत्तरैः अहोभिश्चरन्ति अहोभिरित्यहभिः चरन्ति षडहाः षडहा भवन्ति षडः इति अहाः भवन्ति षड् षड्वै वा ऋगवः ऋगवः संवत्सरः संवत्सरः ऋतुष्वेव एव संवत्सरे प्रति संवत्सर संवत्सरे प्रति तिष्ठन्ति तिष्ठन्ति गौः गौश्च चायुः आयुश्च शमध्यतः मध्यदस्तोमौ स्तोमौ भवतः संवत्सरस्यैव संवत्सरस्येति संवत्सरस्य एव तत् तन्मिथुनम् मिथुनम् अध्यतः अध्यतो प्रजननाय प्रजननाय ज्योतिः प्रजननाय यदि प्रजननाय ज्योतिरभितः अभितो भवति भवति विमोचनम् विमोचनमेव विमोचनमिति विमोचनम् एव तत् तच्छन्दाकुंसि छन्दाकस्येव एव तत् तद्विमोकम् विमोकम् युद्ध विमोकमिति विमोकम् अथो ज्योतिषा अथो इत्यतोः उभेतोः ज्योतिषैव उभेतोः ज्योतिषे इत्युभेदः ज्योतिषः एव षडहेन षडहेन स्वर्गम् षडहेनेति षडहेन स्वर्गम् लोकम् स्वर्गमितिस्वाहायम् लोकम् यन्ति हन्दि ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिने इति ब्रह्मवादिनः वदन्त्यसते आसते केन केन यन्ति यन्देरि इति देवयानेन पथा देवयानेनेति देवयानेन पथेति इति ब्रूयात् ब्रूयाच्छन्दागुंसि छन्दागुंसि वै वै देवयानः देवयानः पन्था आह देवयान इति देवयानः पन्था गायत्र्ये गायत्र्ये त्रिष्टुर त्रिष्टब्जगति ज्योतिः ज्योतिर्वै वै गायत्री गायत्री गौः गौस्तिष्ठुर पृष्टुरायुः आयुर्जगति जगति यत् यदेते दे एते स्तोमाः स्तोमा दे, भवन्ति भवन्ति देवयानेन देवयानेनैव देवयानेनेति दे देवायानेन एव दे तत् तत्प्रथा प्रथायन्ति यन्ति समानम् समानकंसाम साम भवति भवति दे, दे देवलोकः देवलोको वै देवलोक इति देवालोकः दे दे वै साम साम देवलोकात् देवलोकादेव देवलोकादिति देवालोकाद् एव नयन्ति यन्तिन्या अन्याः अन्या अन्यार्चः अन्या अन्या इत्यन्याः अन्याः ऋचो भवन्ति भवन्ति मनुष्यलोकः मनुष्यालोकः वार्चः रुचो मनुष्यलोकात् मनुष्यलोकादेव मनुष्यलोकादिति मनुष्यालोकात् एवान्यमन्यम् अन्यमन्यम् देवलोकम् अन्यमन्यमित्यन्यम् अन्यम् देवलोकमभ्यारोहन्तः देवलोकमिति देवालोकम् अभ्यारोहन्तोयन्ते आरोहन्तः यन्त्यभिवर्तः अभिवर्तो ब्रह्म सामम् ब्रह्मसामम् भवति ब्रह्मसाममिति ब्रह्मसामम् अभिवृद्ध्या अभिजित् अभिवृद्ध्या इत्यभिवृद्धिः अभिजित् भवति स्वोगस्य अभिरुक्त्यै अभिरुक्त्यै विश्वजित् अभिजिता इत्यभियुक्तिः विश्वजित् भवति विश्वजिति विश्वस्य विश्वस्य नित्यै नित्यै मासि मासिमासि पृष्ठानि मासिमासीति मासि मासि पृष्ठान्यप उपयन्ति इति मासिमासि मासिमास्यति ग्राह्याः मासिमासे इति मासि मासि अतिग्राह्या दृह्यन्ते अतिग्राह्या इत्यति ग्राह्याः दृष्यन्ते मासिमासि मासिमाहस्येव मासिमासीति मासि मासि एव वीर्यम् वीर्यम् दधति दधति मासा मासाम् प्रतिष्ठव्यै प्रतिष्ठद्यः उपदिष्टात् प्रदिष्टे ज्यायेते प्रदे उपरिष्टान्मासान् मासाम् पृष्ठानि पृष्ठान्यप उपयुन्ते यन्त्रितस्मात् तस्मादुपरिष्टाद् उपरिष्टादौषधयः ओषधयः फलम् फलम् गृह्णन्ति गृह्णन्ति गृह्णन्ति नावो वै वा एतद् एतत्सत्रम् सत्रमासदा आसदा शृङ्गाः शृङ्गाः सतीः सती शृङ्गाणि शृङ्गाणि सुशासन्तेः सुशासन्ते मासा निषण्णाः निषण्णाः आसन् निषण्णा इति निसन्नाः आसन्नथ अङ्गाणि शृङ्गाण्यराजन्त राजन्दताः ता ब्रुवन् ब्रुवन्रात्स्म अरात्स्मोद् उत्तिष्ठाम तिष्ठामाव अवतम् तन् कामम् काममरत्स्महि रत्स्महि कामेन कामेन न्यषदाम न्यषदामेति दि, असदाम इति तासाहम् तासामुदो त्वयि <Sess> अब्रवन, अब्रवन अर्धा, अर्धा वा अब्रुवन् अब्रुवन्नर्धाः अर्धा वाह वा यावतीः यावतीर्वा वासामहै वासामहारेव एवेमौ इमौ द्वादशौ द्वादशौ मासौ मासौ संवत्सरम् संवत्सरकम् सम्पाद्य संवत्सरमिति संवत्सरम् सम्पाद्योद् सम्पाद्येति संवाद्य उत्तिष्ठाम तिष्ठामेति इति तासाहम् तासाहम् द्वादशे द्वादशे मासि मासि शृङ्गाणि शृङ्गाणि प्र प्रावर्तन्द प्रवर्तन्द श्रद्धया श्रद्धया वा श्रद्धेरिश्वरेधयः वा श्रद्धया अश्रद्धया वा अश्रद्धये रिश्वरोधयाः वा ताः ता इमाः इमायाः यास्तु पराः तु परा उभय्यः उभय्यो वाव ताः आर्ध्वन् आर्ध्वमनयाः याश्च शृङ्गाणि शृङ्गाण्यसन्वन् असन्वणयाः याश्च शोर्जम् ऊर्जमवारुन्धत अवारुन्धत अर्ध्वाति अवारुन्धतेत्यवारुन्धत अर्ध्वाति दशसु दशसु मासौ दशस्विति दशासु मासौ अतिष्ठन् उत्तिष्ठन् रध्नोति उत्तिष्ठन् इत्युतिष्ठन् रध्नोति द्वादशसु द्वादशसु यः द्वादशस्य एवम् वेद वेदपदेन पदेन खलु खलु वै वा एते एते यन्तिन्दति खलु खलु वै मयि पदेन तद्वै वा एतत् एतदृद्धम् रद्धमयनम् तस्मादेतत् एतद् गोसनि गोसनीति गोसनि गोसनी, प्रथमे मासि मासि पृष्ठानि पृष्ठान्य उपयन्ति यन्ति मध्यमे मध्यमौप उपयन्ति यन्त्युत्तमे उत्तमौप उत्तम इत्य उपयन्ति यन्ति तत् राहुः आहुर्याम् यां वै वै त्रिः त्रिवेकस्य एकस्याह्नः अह्न उपसीदन्ति उपसीदन्ति दह्रम् वै वै सा सापराभ्याम् अपराभ्याम् दोहाभ्याम् दुहे दुहेत अधुतः उतः साधो वोक्ष्यते दोक्ष्यते याम् यान् द्वादश द्वादशकृत्वः कृतो उपसीदन्ति उपसीदन्तीति उपसीदन्तीत्युपसीदन्ति इति संवत्सरम् संवत्सरकम् सम्पाद्य संवत्सरमिति संवत्सरम् सम्पाद्योत्तमे सम्पाद्य इति सम्पाद्य उत्तमे मासि उत्तम इत्यष्ठानि पृष्ठान्यपेयुः तद्यजमानाः यजमाना यज्ञम् यज्ञम् पशून् पशूनव अवगन्धते ब्रन्थते समुद्रम् समुद्रम् वै पायेते एतेन वारम् अनवारमपारम् अपारम् प्रप्लवन्दे प्लवन्दे ये यदि संवत्सरम् संवत्सरम् अभयन्ति संवत्सरमिति संवत्सरम् गुजयन्ति यत् गुजयन्दित्युपदे यदि बृहद्रसुन्दरे बृहद्रसुन्दरे अन्वर्जेयुः बृहद्रसुन्दरे यदि बृहद्रन्दरे अन्वर्जे युर्यथा अन्वर्जेयुरित्यनुवर्जेयोः यथा मध्ये मध्ये समुद्रस्य समुद्रस्य प्लवम् प्लवमन्वर्जेयुः अन्वर्जेयस्तादृक् अन्वर्जे यदित्यनुवर्जेयुः तादृप्यत् तदनुत्सर्गम् अनुत्सर्गम् बृहद्रसुन्दराभ्याम् अनुत्सर्गमित्यनुसर्गम् बृहद्रसन्दराभ्याम् यद्वा बृहद्रसुन्दराभ्यामिति बृहदृसन्दराभ्याम् यद्वा प्रतिष्ठाम् प्रतिष्ठाम् गच्छन्ति प्रतिष्ठामिति प्रतिष्ठाम् गच्छन्ति सर्वेभ्यः सर्वेभ्यो वै कामेणभ्यः सन्धिः सन्धिर्दुहे सन्धिरिति तद्यजमानाः यजमानाः सर्वान् सर्वान् कामान् कामानव अपरुन्धते रुन्धत इति रुन्धते समान्यरुचः रुचो मनुष्यलोकः मनुष्यलोको वि मनुष्यलोक इति मनुष्यालोकः मा रुचः रचो मनुष्यलोकात् मनुष्यलोकादेव मनुष्यलोकादिति एव नयन्ति यन्त्यन्यत् अन्यदन्यत्साम अन्यदन्यत् अन्यत् साम भवति भवति देवलोकः देवलोको वै देवलोक इति देवालोकः साम सामदेवलोकात् एवलोकादेव एवलोकादिति देवालोकात् एवान्यमन्यम् अन्यमन्यम् मनुष्यलोकम् अन्यमन्यमित्यन्यम् मनुष्यलोकम् प्रत्यवरोहन्तः मनुष्यलोकमिति मनुष्यालोकम् प्रत्यवरोहन्तोजन्ते प्रत्यवरोहन्त इति प्रति अवरोहन्तः यन्ति जगदिम् जगदिमग्रे अग्र उप उपयन्ते यन्ति जगतिम् जगदिम् वै वै छन्दाकंसि छन्दाकंसि प्रत्यवरोहन्ते प्रत्यवरोहन्ते आग्रेण प्रत्यवरोहन्तेति प्रति आग्रेणम् ग्रहाः ग्रहा बृहद् बृहद् पृष्ठानि पृष्ठानि त्रयस्त्रिपुंशम् त्रयस्त्रिपुंशग्रस्तोमाः त्रयस्त्रिपुंशमिति त्रयः त्रिपुंशम् स्तोमात् तस्माज्ज्यायागुंसम् ज्यायागुंसम् कनीयान् कनीयान् प्रत्यवरोहति प्रत्यवरोहति वैश्वकर्मणः प्रत्यवरोहति इति प्रत्यवरोहति वैश्वकर्मणो गृह्यते वैश्वकर्मण विश्वानि विश्वान्येव तेन तेन कर्मणि यजमानाः यजमानाव अवग्रन्थते ग्रन्थत आदित्यः आदित्यो इयम् इयम् वै अस्यामेव एव प्रति प्रतिष्ठन्ति तिष्ठन्त्यन्यो अन्यः अन्यो अन्यो गृह्यते अन्योन्यः अन्यःत्वाय दृश्येते दृश्येते धनत्वाय प्रजात्यैत्वायेति दशात्वाय प्रजा अवान्तरम् प्रजात्यादि प्राजात्यवान्दरम् वै अवान्दरमित्यवान्तरम् दशरात्रेण प्रजापतिः दशरात्रेणेति दश रात्रेण प्रजावति प्रजाः प्रजावजगति प्रजा असृज प्रजा इति प्राजाः अस्रजगदशरात्रः दशरात्र भवति दशरात्र इति दश रात्रः भवति प्रजा एव प्रजा इति प्राजाः एव तद् तद्यजमानाः यजमानाः सृन्द्रे श्ररन्द्र एताम् वेदा हवै बा उदङ्गः उदङ्गश्रौर्बायनः श्रौर्बायनसत्रस्य सत्रस्यर्थिम् वृद्धिमुवाच उवाच यद् यद्दशरात्रः दशरात्रौ यद् दशरात्र इति दश भवति दशरात्र भवति सत्रस्य सत्रस्य वृद्ध्याथो अथो यद् अथो इत्यथो यदेव एव पूर्वेषु पूर्वेष्वहस्सु अहस्व विलोम अहस्वित्यहसु विलोम क्रियते विलोमेति विलोम क्रियते तस्य तस्यैव एवैषा एषा शान्तिः शान्तिरति शान्तिः यदि सोमौ सोमौ सगुंसुतौ सगुंसुतौ स्याताम् सगुंसुताविति सांसुतौ स्याताम् महति महति रात्र्यै रात्र्यै प्रातरुवाकम् प्रातरणवाकमुपाकुर्यात् प्रातरनुवाकमिति प्रातः अनुवाकम् उपाकुर्यात्पूर्वः उपाकुर्यादित्युपाकुर्यात् पूर्वोवाचम् वाचम् पूर्वः पूर्वो देवताः देवताः पूर्वः छन्दांसि छन्दांसिङ्गे वृङ्गे वृषण्म् वृषण्म् प्रतिपदम् वृषण्वतीमिति वृषणेव प्रतिपदमिति प्रतिपदम् प्रातःसवनात् प्रातः प्रातःस्रवनादिति प्रातः समनात् एवैषाम् येषामिन्द्रम् इन्द्रम् लुङ्गे लुङ्गे सोः असो खलु असो इत्यसोः खल्वाहो आहुसवनमुखे समनुगे सवनमुखे समनुगे कार्यः इतिखादिति सवनमुखात् सवनमुखात् येशाम् येषामिन्द्रम् इन्द्रम् वृङ्गे वृङ्गे संवेषाय संवेषाय उपवेशाय संवेषाय इति संवेषाय उपवेशाय गायत्र्याः उपवेशाय इत्युपा वेषाय गायत्र्या स्रष्टुभः जगत्याः जगत्या अनुष्टुभः अनुष्टुभः पङ्क्याः अनुष्टुभ इत्यनौस्तुभः पङ्क्त्या अभिभूत्यै स्वाहा अभिभवद्या इत्यभिभूत्यैः स्वाहा छन्दापुंसि छन्दापुंसि वै वै संवेषः संवेष उपवेशः संवेष इति संवेषः उपवेश्छन्दोभिः उपवेशयत्युपा वेशः छन्दोभिरेव छन्दोभिरतिछन्दःभिः एवैषाम् एषाम् छन्दांसि छन्दागंसि वृङ्गे वृङ्गे सजनीयम् सजनीयवंशस्यम् सजनीयमिति स जनीयम् सस्यम् विहव्यम् अगस्त्यस्य कयासु बीजम् अयाशु बीजपुरुषस्य कयाशुभीयम् शस्यमेतावत् एतावद्वै वास्ति अस्ति यावत् यावदेतत् एतद् यावत् यावदेव एवास्ति अस्ति एतत् तदेषाम् एषाम् वृन्देः ृन्ते <mí> यदि यदि प्रातः प्रादस्सवने कलुशः प्रादस्यवने यदि प्रातः वीर्येर वीर्येर वैष्णवेषु वैष्णवेषु शिपिविष्टवतीषु शिपिविष्टवदेषु स्तुवीरम् शिपिविष्टवतीषु शिपिविष्टावतीषु स्तुवीरमिर् यद्वै वै यज्ञस्य यज्ञस्य अतिरिच्यते अतिरिच्यते विष्णुम् अतिरिच्यते विष्णुम् तच्छविष्णम् श्रिविष्णमभि श्रीविष्णमिति श्रीविष्णम् अभ्यधि अतिरिच्यते रिच्यते तद् तद्विष्णुः विष्णुः श्रीविष्णुः श्रीविष्णोतिरिक्ते श्रीविष्ण इति शिबिविष्टः अतिरिक्त एव अतिरिक्त एवातिरिक्तम् अतिरिक्तम् दधाति अतिरिक्तमित्यतिरिक्तम् तथा अतिरिक्तेनैव अतिरिक्तेन एवातिरिक्तम् अतिरिक्तम् आप्त्वा अतिरिक्तमित्यवरुन्धते रुन्धते यदि यदि मध्यन्दिने मध्यन्दिने दीर्येत दीर्घेत वषट्कारनिधनम्कारनिधनम् साम कुर्युः वषद्गारः षड्गार इति विषडकारः यज्ञस्य यज्ञस्य प्रतिष्ठा प्रतिष्ठा प्रतिष्ठाम् प्रतिष्ठेति प्रतिष्ठा प्रतिष्ठामेव प्रतिष्ठामिति प्रतिष्ठाम् एवैनत् एनद्गमयन्ति गमयन्ति यदि तृतीयसवने तृतीयसवन एतत् तृतीयसवन इति तृतीयसवने एतदेव एवेत्येव षडैर्मासान् षडैः मासान् सम्पाद्य सम्पाद्याः सम्पाद्येति सम्पाद्य अहरु उत्सृजन्ति तृजन्ति षडहैः षडहैः षडहैरिति षडैः विमासान् मासान् सम्भष्यन्ति सम्भष्यन्त्यर्धमासैः सम्भष्यन्तीति सम्भष्यन्ति अर्धमासैर्मासान् अर्धमासैरित्यर्धमासैः मासान् सम्पाद्य सम्पाद्याः सम्पाद्येति सम्पाद्य अहृदृ उत्सृजन्ते अर्धमासैः अर्धमासैरित्यर्धमासैः हिमासान् मासान् सम्भष्यन्ते सम्भष्यन्त्यमाभास्यला सम्भष्यन्तेति सम्भष्यन्ते अमाभास्यजामासान् मासान् सम्पाद्य सम्पाद्यः सम्पाद्येति सम्पाद्य हा हृद उत्सृजन्ते सृजन्त्यमावास्यजा अमावास्यजा मासान् सम्पश्यन्ति सम्पश्यन्ति पौर्णमास्याति सम्प्यन्ति पौर्णवास्यामासान् पौर्णमास्येति पौर्णमास्या मासान् सम्पाद्य सम्पाद्याः सम्पाद्येति सम्पाद्य अहर उत्सृजन्ति पौर्णमास्या पौर्णमास्या हि पौर्णवास्येति पौर्णमास्या हि मासान् मासान् सम्पश्यन्ति सम्पश्यन्ति यः यो वै यै पूर्णे पूर्णाः शिञ्जति आशिञ्चति पराः आशिञ्चतीत्याः शिञ्जति परासः सिञ्चति सिञ्चति यः यः पूर्णात् पूर्णादुदशति उदशति अस्मिन् सः स दधाति अधाति यत् यत्पौर्णमास्या पूर्णमास्यामासान् पूर्णमास्येति पौर्णामास्यामासान् सम्पाद्य सम्पाद्याः सम्पाद्येति सम्पाद्य अहरुत्सृगन्ति उत्सृजन्ति संवत्सराय उत्सृजन्देत्युसृजन् संवत्सरायैव संवत्सराय यदिवत्सराय एतत् तद्बाणम् दधति प्राणमिति प्राणम् दधति यत् तदनु अनुसर्त्रिणः सत्रिणः प्र प्राणन्ति अनन्ति यत् यदह अहर्न यथा दृतिः उपलब्धो विपतति उपलब्ध इत्युपानद्धः विपदत्येव विपतीति एव संवत्सरः संवत्सरोऽपि संवत्सर इति संवत्सरः विपदेत् पदेदार्तिम् आर्तिमा आर्च्छेयुः पृच्छेयु यत् यत्पौर्णमास्या पूर्णमास्यामासान् पूर्णमास्येति पौर्णामास्य मासान् सम्पाद्य सम्पाद्याः सम्पाद्येति सम्पाद्य अहरुत्सृजन्ति उत्सृजन्ति संवत्सराय उत्सृजन्ति इत्यवत्सरायैव संवत्सराय संवत्सराय एव तत् तदुदानम् उदानम् दधति उदानमित्युत् अनम् तदनु अनुसत्रिणः सत्रिणवृत् उदनन्ति अनन्दिन मार्तिम् आर्तिमा आर्च्छन्ति पूर्णमासे पूर्णमासे वै पूर्णमासे पूर्णमासे वै देवानाम् देवानागुंसुतः सुतोयद् यद्पौर्णमास्या पौर्णमास्यामासान् पौर्णमास्येति पौर्णामास्या मासान् सम्पाद्य सम्पाद्याः सम्पाद्येति सम्पाद्य अहरुत्सृजन्ति उत्सृजन्ति देवानाम् उत्सृजन्तित्सृजन्ति देवानामेव तत् तद्यज्ञेन यज्ञेन यज्ञम् यज्ञम् प्रत्यवरोहन्ति प्रत्यवरोहन्ति प्रत्यवरोहन्तीति प्रति अवरोहन्ति इवै वा एतद्यज्ञम् यज्ञम् छिन्दन्ति छिन्दन्ते यच्छणः सन्नतम् षडः सन्नतम् सन्तम् षडः सन्नतमिति षडः सन्नतम् सन्तमथ अथाहह अहरत्सृजन्ति रत्सृजन्ति प्राजापद्यम् उत्सृजन्ति इत्युत सृजन्ति आलभन्ते लभन्ते प्रजापतिः प्रजापतिः प्रजापतिहृदिप्रजापतिः सर्वा देवताः देवता देवताभिः देवताभिरेव एव यज्ञम् यज्ञपुंसम् सन्तन्वन्दि तन्वन्दि यन्ति यन्ति वै वा एते एते समनाद् समनाद्ये हेहः अहरुत्सजन्धि रुत्सृजन्तित्सृजन्ति इत्युत्सृजन्ति खलु खलु वै वा एतत् एतत्सवनम् सवन यत् यत्सान्नाह्यम् सान्नाय्यम् यत् सान्नाह्यमिति साम्नाह्यम् यत्सान्नाह्यम् सान्नाय्यम् भवति सान्नाह्यमिति साम्नाह्यम् भवति तेन एव समनात् सवनान्न नयन्ति यन्ति समुपभूय समुभूय भक्षयन्ति समुभूय सामुपभूय भक्षयन् एतत्सोमपीठाः एतत्सोमपीठा हि एतत्सोमपीठा इत्येतत् सोमपीठाः ह्येतर्हि एतर्हि यथा यतनम् वै यथायतनमिति यथा आयतनम् वा एतेषाम् एतेषाकम् सवनभाजः सवनभाजो देवताः सवनभाज इति सवनाभाजः देवता गच्छन्ति गच्छन्ति ये येहः अहरुत्सृजन्ति उत्सृजन्त्यनुसवनम् उत्सृजन्ति इत्यनसृजन्ति अनुसवनम् प्ररोडाशान् अनुसवनमित्यनुसवनम् प्ररोडाशाह्निः गर्भवन्ति भवन्ति यथा यतनात् यथा यतनादेव यथा यथा आयतनात् एव सवनभाजः सवनभाजो देवताः सवनभाज इति सवनभाजः देवता अव अवरुन्धते रन्धते अष्टाकपालान् अष्टाकपालान् प्रातःसवने अष्टाकपालानित्यष्टाकपालान् प्रातःसवन एकादशकपालान् प्रातःसवन इति प्रातः सवने एकादशकपालान् माभ्यन्दिने एकादशकपालानीत्येकादशाकपालान् माभ्यन्दिने सवने सवने द्वादशकपालान् द्वादशकपालाकस्तृतीये सवने द्वादशकपालान्पालान् तृतीयसवने शन्द्रागम् तृतीयसवने इति तृतीयासवने शन्द्रागस्येव एवाप्त्वा आप्त्वा वा अवरुन्धते रन्धते वैश्वदेवम् वैश्वदेवम् चरम् वैश्वदेवमिति वैश्वदेवम् चरम् तृतीयसवने तृतीयसवनेनि हि तृतीयसवने इति तृतीयासवने निर्वपन्दि वपन्ति वैश्वदेवम् वैश्वदेवम् वै वैश्वदेवमिति वैतृतीयसमनम् तृतीयसवनम् तेन तृतीयसवनमिति तृतीयसमनम् येनैव एकतृतीयसवनात् तृतीयसमनान्न तृतीयसमनादिति तृतीयासवनात् नयन्ति यन्ति उत्सृजा सृजासृजा त्सृजाुदसृजा इति हीमापुंसन्ते हीमागुंसन्ते ब्रह्मवादिनः ब्रह्मवादिनस्तद् ब्रह्मवादिन इति ब्रह्मवादिनः ततो उवाहुः आहुरुत्सृज्यम् उत्सृज्यमेव उत्सृज्यमित्युदसृज्यम् एवेति इत्यमावास्यायाम् महावास्यायाम् च अमावास्यायामित्यमावास्यायाम् च पौर्णमास्याम् पौर्णमास्याम् च पौर्णमास्यामिति पौर्णमास्याम् चोत्सृज्यम् उत्सृज्यमिति उत्सृज्यमित्युदौसृज्यम् इत्याहो आहुरेते एते हि एते इत्येते यज्ञम् यज्ञम् वहद वहत इति उत्सृज्ये उत्सृज्ये इत्युदौसृज्ये इत्याहोः आहुर्ये ये अवान्दरम् ये ये अवान्दरम् यज्ञम् अवान्दरमित्यवान्दरम् यज्ञम् भेजातेः भेजाते इति भेजाते इति भेजातेः भेजा इति या या प्रथमा प्रथमाव्यष्टका व्यष्टका तस्याः व्यष्टके अष्टका तस्यामुत्सृज्यम् उत्सृज्यमिति उत्सृज्यमित्युदसृज्यम् इत्याहो आहुरेषः एष वै वै मासः मासो विशरः विशर इति न नादिष्टम् आदिष्टमित् आदिष्टमित्यादिष्टम् उत्सृजेयुः सृजेजर्यत् यदादिष्टम् आदिष्टमुत्सृजेयुः आदिष्टमित्यादिष्टम् उत्सृजेयु यादृशेः उत्सृजेरित्य सृजेयोः यादृशे पुनः पुनः पर्याप्लावे मध्ये पर्याप्लाव इति आप्लावे मध्ये षडहस्य षडहस्य सम्पद्येत षडहस्येति षडहस्य सम्पद्येत षडहैः सम्पद्येति सम्पद्येत षडैर्मासान् षडहैरिति षड् अहैः मासान् सम्पाद्य सम्पाद्य सम्पाद्य सम्मार्ज्य यत्सब्धमम् सब्धममहः अहस्तस्मिन् तस्मिन् उत्सृजेयुः सृजेय यद् यदग्नये अग्नये वसुमते वसुमते प्रोढाशम् वसुमत इति वसुमदे प्रोडाशमष्टागपालम् अष्टागपालन्निः अष्टागपालविद्यष्टाकपालम् निर्वपेयुः प्रपेयगैन्द्रम् ऐन्द्रम् दधि दधीन्द्राय इन्द्राय मरुद्वदे मरुद्वदे पुरोडाशम् पुरोडाशमेकादशकपालम् एकादशकपालम् वैश्वदेवम् एकादशकपालमित्येकादशाकपालम् वैश्वदेवम् द्वादशकपालम् वैश्वदेवमिति वैश्वदेवम् द्वादशकपालमग्नेः द्वादशकपालमिति द्वादशाकपालम् अग्नेर्वै वै वसुमतः वसुमतः प्रातः प्रातःसवनम् यत् प्रातःसवनमिति प्रातः समनम् यदग्नयेः अग्नये वसुमतेः वसुमतेः प्रौढाशम् वसुमध इति वसुमतेः प्रौढाशमष्टागमानम् अष्टागमानम् निर्ववपन्दे अष्टागपालमित्यष्टागपालम् निर्ववन्ति देवताम् निर्वपन्दीति निवदन्ति देवतामेव एतत् तद्भागिनीम् भागिनीम् कुर्वन्ति कुर्वन्ति सवनम् सवनमष्टाभिः अष्टाभिरुप उपयन्ति यन्ति यत् यलैन्द्रम् ऐन्द्रम् नधि नधि भवतिन्द्रम् इन्द्रमेव एवत् तद्भागधेयाद् भागधेयान्न भागधेयादिति भागधेयात् न च्यावयन्ति च्यावयन्तीन्द्रस्य इन्द्रस्य वै वै मरुत्वदः मरुत्वन्दिनम् माध्यन्दिनम् सवलम् सवलम् यद् यदि मरुत्वदे मरुत्वदे प्रौढाशम् प्रौढाशमेकादशकपालम् एकादशकपालम् निर्भवन्ति एकादशकपालमित्येकादशकपालम् निर्भवन्ति देवतानाम् निर्ववन्ति इति देवतामेव एव तद् तद्भागिनीयम् भागिनीयम् कुर्वन्ति कुर्वन्ति सवनम् एकादशभिरुप एकादशभिरित्येकादशाभिः उपयुन्दे विश्वेषाम् विश्वेषाम् वै वै देवानाम् देवानाम् ऋभुमताम् ऋभुमताम् तृतीयसमनम् ऋभुवताम् इति तृतीयासमनम् यद्वै ईश्वरेवम् वैश्वदेवम् द्वादशकमारम् वैश्वरेवमिति वैश्वदेवम् द्वादशकवारम् निर्ववन्दे द्वादशकवारमि द्वादश निर्भवन्ति देवताः निर्भवन्ति इति निहेभवन्दे देवता एव तत् दे, तद्भागिनीः भागिनीः कुर्वन्ति कुर्वन्ति सवनम् सवनम् द्वादशभिः द्वादशभिर्वा द्वादशभिरिचिद्वादशाभिः उपयन्ति यन्ति प्राजापत्यम् प्राजापत्यम् वशुम् प्राजापत्यमिति प्राजापत्यम् वशुमा आलभन्ते लभन्ते यज्ञः यज्ञो वै वै प्रजा प्रजापतिः प्रजापतिर्यज्ञस्य प्रजापतिरिति प्रजापतिः यज्ञस्यानुनसर्दाय अनुनसर्गायाभिवर्तः अननुसर्गाय इत्यननुसर्गाय अभिवर्तयितः अभिवर्तयत्यभिवर्तः इतमासः मासो ब्रह्म सामम् ब्रह्मसामम् भवति ब्रह्मसाममिति ब्रह्म सामम् ब्रह्म वै वा अभिवर्तो ब्रह्मण अभिवर्तयत्यभिवर्तः ब्रह्मण इव एतत् तत्सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति स्वहागम् लोकमभिवर्तयन्तः अभिवर्तयन्तोयन्ते अभिवर्तयन्त प्रतिकूलम् प्रतिकूलमिव प्रतिकूलमिति प्रतिकूलम् इव हि ीतः इतः सुवर्गः स्वर्गो लोकः स्वर्ग इति सुवभागः लोक इन्द्र इन्द्रकृतम् कृतम् नः न आ आभर भरपिता पिता पुत्रेभ्यः पुत्रेभ्यो यथा नो अस्मिन् अस्मिन् पुरुहूत पुरुहूतयामनि पुरुहूतेति पुरोहूत यामनि जीवाः जीवा ज्योतिः जीवा ज्योतिरषीमहि अशीमहीति इत्यमुतः अमुतायताम् आयताकंषट् आयता आयतामित्याह यथा षण्मासः मासो ब्रह्मसामम् ब्रह्मसामम् भवति ब्रह्मसाममिति ब्रह्म सामम् भवत्ययम् अयम् वै वै लोकः ज्योतिः ज्योतिः प्रजा प्रजाज्योतिः प्रजेतिप्राजा ज्योतिरिमम् इममेव एव तत् तल्लोकम् लोकम् पश्यन्तः पश्यन्तोऽभिवदन्तः अभिवदन्तः अभिवदन्त इत्यभिवदन्तः आयन्ति यन्लीलयन्ति देवानाम् वै जग्मुषाम् जग्मुषामिन्द्रियम् इन्द्रियम् वीर्यम् अक्राम तद्ग्रोशेण क्रोशेनाव अपारुन्धत अरुन्धत तद्ग्रोशस्य क्रोशस्य क्रोशत्वम् क्रोशत्वम् यत् क्रोशत्वमिति क्रोशाद्वम् यत्क्रोशेन क्रोशे न चात्वा चात्वादस्यान्धे अन्धे स्तुवन्दिवन्दियज्ञस्य यज्ञस्यैव एवान्ध्रम् अन्धम् गत्वा वृत्रेन्द्रियम् इन्द्रियम् वीर्यमवृन्धते सत्रस्यर्भ्याः सत्रस्यर्भ्याः हवनीयस्य आहवनीयस्यान्दे आहवनीयस्येद्याः हवनीयस्य अन्दे स्तवन्दे स्तुवन्त्यग्निम् एवोपद्रष्टारम् उपद्रष्टारम् कृत्वा ष्टानमित्यु द्रष्टान् कृत्वद्धिम् वा उपयन्ति यन्ति प्रजापतेरहृदयेन प्रजापतेरहृदयेन हविर्धानेः अविर्धानेऽन्तः अव्यधानेति हिधानेः अन्तःस्तुवन्दिप्रेमाणम् प्रेमाणमेव एवास्य अस्य गच्छन्ति गच्छन्ति श्लोकेन श्लोकेन पुरस्ताद् पुरस्तात्सदसः सदसस्तुवन्ति स्तुवन्दिनश्लोकेन अनुश्लोकेन पश्चात् अनुश्लोकेनेत्यनो श्लोकेन पश्चाद्यज्ञस्य यज्ञस्यैव एवान्तम् अन्तम् कृत्वा दत्त्वा श्लोकभाजः श्लोकभाजो भवन्ति श्लोकभाज श्लोकाभाजः भवन्ति नवभिः नवभिरध्वर्युः नवभिरिति नवाभिः अध्वर्युद्गायति गायति नव न भवै पुरुषे पुरुषे प्राणाः प्राणाः प्राणान् प्राणानिति प्राणान् एव यजमानेषु यजमानेषु दधाति दधाति सर्वाः सर्वा ऐन्द्रियः ऐन्द्रियो भवन्ति भवन्ति प्राणेषु प्राणेष्वेव प्राणेष्विति प्राणेषु एवेन्द्रियम् इन्द्रियम् दधति दधत्यप्रतिहृताभिः अप्रतिहृताभिहत् अप्रतिहृताभिरत्यप्रतिहृताभिः उद्गायति गायति तस्मात् पुरुषः पुरुषः सर्वाणि सर्वाण्यन्यानि अन्यानि शीर्ष्णः अङ्गानि प्रति प्रत्यजति अर्हति शिरः शिर एव न पञ्चदशम् पञ्चदश पञ्चदशमिति पञ्चादशम् रथन्दरम् भवति रथन्दरमिति रथम् धरम् भवती अवरुन्धते वृन्धते सब्दशम् सब्दशम् रहते सप्तदशमिति सब्दादशम् अन्नाद्यस्यावृद्ध्यै अन्नाद्यस्येत्यन्नाद्यस्य अवृद्ध्या अथो अवरुद्ध्या इत्यवृद्धि अथोप्र अथो इत्यतो एव तेन तेन जायन्ते जायन्तेकविषम् एकविद्रम् एकविद्रम्पदासु विपदासु प्रदिश्यै विपदासु प्रदर्श्यः प्रदर्श्यप्रदिश्यै पद्मयमुप उपगायन्ते गायन् प्रजाहाद्यादिप्राजात्यै प्रजापतिप्रजाः प्रजापति प्रजापतिः प्रजा असृगत प्रजा इति प्राजाः असृजतसः सोऽकामयत अकामयतासाम् आसामहम् अहगम् राज्यम् राज्यम् वरि परियामिति तासाम् तासागम् राजनेन राजनेनैव एव राज्यम् राज्यम् वरि पर्ययीत् एतत् तद्राजनस्य राजनस्य राजनत्वम् राजनत्वम् यत् राजनत्वमिति राजनत्वम् राजनम् भवति भवति प्रजानाम् प्रजानामेव प्रजानामिति प्राजानाम् एव तत् तद्यतमानाः यजमाना राज्यम् राज्यम् वरि परिहन्ति हन्ति पञ्चविवंशम् पञ्चविवंशम् भवति पञ्चविवंशमिति पञ्चाविकुंशम् भवति प्रजापतेरिति प्रजापतेः आप्यै पञ्चभिः पञ्चभिस्तिष्ठन्तः पञ्चभिरिचिपञ्चाभिः तिष्ठन्तः स्तुवन्दे स्तुवन्दिदेवलोकम् देवलोकमेव एवलोकमिति देवालोकम् एवाभिः अभिजयन्ति जयन्ति पञ्चभिः पञ्चभिरासीनाः पञ्चभिरिति पञ्चाभिः आसीना मनुष्यलोकम् मनुष्यलोकमेव मनुष्यलोकमिति मनुष्यालोकम् एवाभिः अभिजयन्ति जयन्ति दशाम् सम्पद्यन्ते पद्यन्ते दशा अक्षरा असाक्षर विराड असाक्षर एव दुसाक्षर विराडन् विराड दिवेराड अन्नम विराड विराम विराजा विराड दिवेराड विराजैव विराजेति विराजः एवान्नाद्यम् अन्नाद्यमव अन्नाद्यमित्यन्नाद्यम् अवरुन्धते रुन्धते पञ्चथा पञ्चथा विनिषद्य पञ्चथेति पञ्चाधा विनिषद्य स्तुवन्ति विनिषद्येति विनिषद्य स्तुवन्ति पञ्च पञ्चदिश दिशो दिक्षो एव प्रति प्रतिष्ठन्ति तिष्ठन्त्येकैकया एकैकयास्तुतया एकैकयेत्येकया एकया अस्तु तया समाजन्ति समाजन्ति समाजन्तीति समाजन्ति दिग्भ्य एव दिग्भेति दिगभ्यः एवान्नाद्यम् अन्नाद्यम् अन्नाद्यमित्यन्नाद्यम् सम्भरन्ति भरन्ति ताभि ताभिरुद्घाता उद्घातो उद्गायति गायति दिग्भ्यः दिग्भ्य एव एवान्नाद्यम् अन्नाद्यकम् संहृत्य अन्नाद्यमित्यन्नाद्यम् संहृत्य तेजः संहृत्येति संहृत्य आत्मन् दधते दधते तस्मात् तस्मादेकः एकः प्राणः प्राणः सर्वाणि प्राण इति सर्वाण्यङ्गानि अङ्गान्यपति अवत्यथो अथो यथा अथो इत्यथो यथा सुवर्णः सुपर्ण उत्पदिष्यन् सुपर्ण उद्वदिष्यन् शिरः उद्भदिष्यन्त्युदपदिष्यन् शिर उत्तमम् उत्तमम् कुरुदे उत्तममित्युदौ उत्तमम् कुर्वत एवम् एवमेव एव तद् तद्यजमानाः यजमानाः प्रजानाम् प्रजानामुत्तमाः प्रजानामि प्रजानाम् उत्तमाः भवन्ति उत्तमानित्युदत्तमाःसन्दीम् आसन्दीमुद्घाता आसन्दीमित्या आसन्दीम् उद्घातारोहति उद्घाते इत्युदघाता आरोहति रोहति साम्राज्यम् साम्राज्यमेव साम्राज्यमिति साम्राज्यम् एव गच्छन्ति गच्छन्ति प्लेङ्खम् प्लेङ्खकम् भवताः नाकस्य नाकस्यैव एव पृष्ठम् पृष्ठकम् रोहन्ति रोहन्ति कूर्चौ कूर्चावध्वर्युः अध्वर्युर्ब्रस्य रस्यैव एव विष्टवम् विष्टवम् गच्छन्ति वै वयदेव लोकाः दा, एव इति देव लोकाः एव यथा पूर्वम् यथापूर्वम् प्रति यथापूर्वमिति यथापूर्वम् प्रतिष्ठन्ति तिष्ठन्त्यथोः अथो आक्रमणम् अथो यद्यथो आक्रमणमेव आक्रमणमित्या आक्रमणम् एव तत् तत्सेतुम् सेतुम् यजमानाः यजमानाः कुर्वते कुर्वते सुवर्गस्य सुवर्गस्य लोकस्य स्वर्गस्य सुभागस्य लोकस्य समष्ट्यै समष्ट्यादिसमष्टिः अर्केण वै वै सहस्रशः सहस्रशः प्रजापतिः सहस्रः इति सहस्रः प्रजापतिः प्रजाः प्रजापतिरिति प्रजापतिः प्रजा असृजत प्रजा इति प्राजाः असृजत ताभ्यः ताभ्य इलान्देन इलाहन्देनैलाम् इलाम् लोताम् लोतामव अवारुन्ध प्रजाः प्रजा एव प्रजा इति यजमानाः सृचन्द्रे सृचन्द्र इलान्दम् इलानन्दम् प्रजाभ्यः प्रजाभ्य एव प्रजाभ्य इति प्राजाभ्य एव सृष्टाभ्यः सृष्टाभ्य इराम् इराम् लोताम् लोतामव अवरुन्धते रुन्धते तस्मात् तस्माद्भ्याम् यागम् समाम् समाकम् सत्रम् सत्रम् समृद्धम् समृद्धम् शोतकाः समर्धम् शोधकास्ताम् तारम् समाम् समाम् रजाः प्रजा इषम् प्रजा इति प्राजाः ऊर्जमाददते आदलतेयाम् आददत इत्याददते यागुम्समानम् समाम् व्यर्थम् व्यर्धमक्षोधुकाः व्यर्थमिति वीर्धम् अक्षोधुकास्ताम् अक्षो तागुम्समाम् समाम् प्रजाः प्रजा न प्रजा इति प्राजाः न हि ह्यासाम् आसामिषम् विषमूर्जम् ऊर्जमाददते आदत प्रैत्या उत्क्रोधम् कुर्वते उत्क्रोधमित्युत् क्रोधम् कुर्वते यथा यथा बन्धाद् बन्धान्मचानाः मुचानामुत्क्रोधम् उत्क्रोधम् कुर्वतेः उत्क्रोधमित्युत् क्रोधम् कुर्वत एवमेव एव तत् तद्यजमानाः यजमानादेव बन्धात् देवबन्धामो चानाः देवबन्धादिति देवाबन्धात् मोचानावत्क्रोधम् क्रोधम् कुर्वते उत्क्रोधमित्युदक्रोधम् कुर्वत इषम् इषमूर्जम् ऊर्जमात्मन् आग्मन् दधानाः बाणशतदन्तुः शततन्त्रर्भवति शततन्तरिति शतादन्तुः भवति शतायुः शतायुः पुरुषः शतायुरिति शता आयुः पुरुषः शतेन्द्रियः शतेन्द्रिय आयुषि शतेन्द्रिय इति शता इन्द्रियः आयुष्येव देवेन्द्रिये इन्द्रिये प्रति प्रतिष्ठन्ते तिष्ठन् आजिम् आजिन्धावन्ते धावन्त्यनभिजितस्य अनभिजितस्याभिजित्यै अनभिजितस्यैद्यनभिजितस्य अभिजित्यैन्दुभिन् अभिजित्याभिजयै इन्दुभेन् समाघ्नन्ते समाघन्दि परमा समाघ्नन्दे समानघ्नन्दे परमा वै वा एषा एषा वाग वाग्या यादुन्दुभौ इन्दुभौ परमा परमामेव एववाच वाचमव अवरुन्धते रुन्धते भूमिदुन्दुभिम् गोमिदुन्दुभिमा गोमिदुन्दुभिदुन्दुभिम् वाग्नन्दिन्दिया दीव एवेमाम् इमाम् वाग् वाग्प्रविष्टा प्रविष्टा ताम् प्रविष्टेतिप्रविष्टाः तामेव एवाव अवरुन्धते रुन्धतेऽोः अथो इमाम् अथो इत्यथोः इमामेव देव जयन्ति जयन्ति सर्वाः सर्वा वाचः वाचो वदन्वि वदन् सर्वासाम् सर्वासाम् आर्द्रे अवरुद्ध्या इत्यवारुद्धिः आर्द्रे कर्मन् कर्मण्यायच्छेते यायच्छेते इन्द्रियस्य यायच्छेते इति वि आन्यः अन्यः क्रोशति क्रोशति प्र प्राण्यः अन्यः शकम्सति शकंसति यः य आक्रोशति आक्रोशति पुनादि आक्रोशतीत्या आक्रोशति पुनाद्येव एवैनान् एनान् सः स यः यः प्रशकंसति प्रशकंसति भूतेषु प्रशकंसतीति प्राशकंसति भूतेष्वेव एवान्नाद्यम् अन्नाद्यम् अन्नाद्यमित्यन्नाद्यम् गृहाद्यषिकृतम् ऋषिकृतम् च ऋषिकृतमित्यृषीकृतम् च एते एते देवकृतम् देवकृतम् च एवकृतमिति देवाकृतम् च पूर्वैः पूर्वैर्मासैः मासैरव अवरुन्धते रुन्धते यत् भूतेच्छदाम् भूतेच्छदाकम् सामानि अवरुद्ध्य यन्ति अवरुद्ध्या इत्यववृद्धिः यन्ति वै वा एते एते विथलाद् विथलाव्ये ये संवत्सरम् संवत्सरमुपयन्ति संवत्सरमिति संवत्सरम् उपयन्ति अन्तर्वेदि उपयन्तीत्युपायन्ति अन्तर्वेदिथुलौ अन्तर्वेदी इत्यन्तः सम् सम्भवतः भवतस्तेन तेनैव एवमिथलात् विथलान्न नयन्ति यन्तीति यन्ति चर्मा वा अवभिन्दन्ति भिन्नन्ति वामानम् पाप्मानमेव एवैषाम् एषामव अवभिन्दन्ति भिन्दन्ति माप अपरात्सीः रात्स्येर्माति अधिव्यात्सीः व्यात्सेरिति इत्याह आह सम्प्रति संवृत्येव सम्प्रतिरिति सम्प्रति एवैषाम् एषाम् पाप्मानम् पाप्मानमव अवभिन्दन्ति भिन्दन्त्युतकुम्भान् उत कुम्भावधिनिधाय उत कुम्भानित्युत कुम्भान् अधिनिधाय दास्यः निधाय स्यो मार्जालीयम् मार्जालीयम् ततो निघ्नतीः निघतीरिघदीः इदम् मथुम् गायन्त्यः गायन्त्यो मधु मधु वै वै देवानाम् देवानाम् परमम् परममन्नाद्यम् अन्नाद्यम् परमम् अन्नाद्यमित्युन्नाद्यम् परममेव एवान्नाद्यम् अन्नाद्यमव अन्नाद्यमित्युन्नाद्यम् अवरुन्धते वृन्धते पद अदोनि महीया महीयामेवैषु एषु दधति दधतीति दधति दिव्यै स्वाहा स्वाहा अन्तरिक्षाय अन्तरिक्षाय स्वाहा स्वाहा दिवे दिवे स्वाहा स्वाहा संबलोष्यते सम्बोष्यते सः संबोभमानाय सम्बोमानाय स्वाहा संब्लोमानायतिनाय साहा संवृदाय संवृताय स्वाहायति स्वाहा मेघायिशते मेघायश्वरे स्वाहा स्वाहा मेघायते मेघाजे स्वाहा मेघाजरे इति मेघाजते स्वाहा मेघाज मेघदाय स्वाहा स्वाहा मेघाय मेघाय स्वाहा स्वाहा निहाराय निहाराय स्वाहा स्वाहा निहाकारी निहाकारी स्वाहा निहाकारी स्वहा प्रासदा यस्वः सः प्रजलागायै प्रजलागायै स्वः प्रजलागायः इति प्राजलागायै स्वाहा विद्योतिष्यते विद्योतिष्यते स्वः विद्योतिष्यते इति विद्योतिष्यते सः विद्योतमानाय विद्योतमानाय स्वः विद्योतमानायेति विद्योतमानाय स्वाहा संविद्योतमानाय संविद्योतमानायस्वः संविद्योतमानायेति संविद्योतमानाय स्वाहा शनैष्यदे शनैषरे स्वः स्वाहारे स्नयते स्वाहा साहोग्रम् उग्रग स्नयदे स्नयते सः साहा वर्षदे वर्षते सः साहाभिवर्षदे अभिवर्षते स्वाहा अभिवर्षतैत्यभिवर्षदे साहा संवर्षदे संवर्षते स्वाहा संवर्षत इति संवर्षदे स्वाहानुवर्षदे अनुवर्षते सः श्रीकायिश्वरे श्रीगायश्वरे सः सः श्रीगायते श्रीरायले सः श्रीगायते इति श्रीगायते सः श्रीकृताय श्रीकृताय सः सः प्रोशिष्यते प्रोषिष्यते सः सः पृष्णदे पृष्णदे सः सः परिपृष्णदे हरिपृष्णदे सः हरिपृष्णदे इति परिपृष्णदे सहोद्ग्रहीश्वे उद्ग्रहीष्यते सः उद्ग्रहीश्वरे इत्युदग्रहीष्यते सहोद्गृह्णरे उद्गृह्णरे सः उद्गृह्णरे गृह्णरे साहोद्गृहीताय उद्गृहीताय स्वाहा उद्गृहीताय द्युतगृहीताय सः विप्लोषरे विप्लोशरे सः विप्लोषरे इति विप्लोशरे सः विप्लवमानाय विप्लवमानाय स्वाहा विप्लवमानाय यदि सः विप्लुताय विप्लुदाय स्वाहा विप्लुताय यदि स्वाहा दप्स्यते आदप्स्यते स्वाहा आदप्स्यदैद्यः दप्स्यदे स्वाहादपदे आदपदे स्वाहा आदपदैद्यादपदे स्वाहोग्रम् उग्रमादपदे आदपदे स्वाहा आदपदैद्यादपदे स्वाहर्भ्यः ऋग्भ्यस्वाहाभ्यैदृगेभ्यः स्वाहायजुर्भ्यः यजुर्भ्यस्वाहा यजुर्भ्यैदि यजुहोभ्यः स्वाहासामभ्यः सामभ्यस्वाहा सामभ्यैदि सामाभ्यः स्वाहाङ्गिरोभ्यः अङ्गिरोभ्यः अङ्गिरोभ्यैत्यङ्गिरःभ्यः सः वेदेभ्यः वेदेभ्यः स्वः सहा गाथाभ्यः गाथाभ्यस्वः स्वाहा नाराशपुंसीभ्यः नाराशपुंसेभ्यः स्वः स्वाहाभ्यः रविभ्यस्वः स्वः सर्वस्मै सर्वस्मै स्वः स्वाहेति स्वहा दद्वदे स्वः स्वः दन्तकाय दन्तकाय स्वः स्वः प्राणिने प्राणिने स्वः स्व प्राणाय अप्राणाय स्वः स्वाहामुखवदे मुखवदे स्वघवद इति मुखावदे सः मुखाय अमुखाय स्वः सहा नासिकवदे नासिकवदे स्वाहा नासिकवध इति नासिकावदे स्वाहा नासिकाय सः क्ष्णदे अक्षण्मदे स्वाहा अक्षण्मद इत्यक्षण्वदे स्वाः अनक्षिकायस्वाः सः कर्णिणे कर्णिने सः कर्णगाय अकर्णगायस्वः सः शीर्षण्मदे शीर्षण्मदे स्वाः शीर्षण्मद सः शीर्षकाय शीर्षकाय सः सः पद्मदे पद्मदे सह पद्मद इति पद्वदे सः बादकाय अबादकाय सः प्राणदे प्राणदे सः प्राणदैति प्राणदे सः प्राणदे अप्राणदे सः अप्राणदैत्यप्राणदे सः वददे वदते सः साः वदते अवददे स्वाः सः पश्यते पश्यदे सः सा पश्यदे अपश्यदे सः सः शृण्वदे शृण्मदे सः सः शृण्वदे अशृण्मदे स्वाः सः मनस्विने मनस्विने सः सः मनसे अवनसे स्वः सः रेतस्विने रेतस्विने स्वाहा साह रेतस्काय अरेतस्काय स्वाः रेतस्काय इति सः अप्रजाभ्यः प्रजाभ्यः सह प्रजाभ्येदिप्रजाभ्यः सः अप्रजननाय प्रजननाय स्वाहा प्रजननावेदि प्रजननाय साहा लोमदे लोमरे सः लोमो लोमावदे लोमकाय लोमकाय स्वः सहा प्रजे प्रजे स्वः स्वाहाक्काय अत्वक्काय स्वाहा सा हण्ड्वे चर्मण् सः चर्मे स्वाहाकाय शर्मकाय स्वः स्वाहा लोहितवदे लोहितवदे स्वः लोहितवदैति लोहितवदे स्वाहा लोहिताय अलोहिताय स्वाहा स्वाहा माघुम् सन्मदे माघुम् सन्मदे स्वाहा माघुम् सम्मदैति मागुम्सन्मदे स्वाहा मागुंसकाय अमागुंसकाय स्वाहा स्वाहास्तावभ्यः स्नावभ्य स्वाहा स्नावभ्यै स्नावाभ्यः स्वाहास्नावकाय अस्नावकाय स्वाहा दे अस्तम्मदे स्वाः अस्थम्वद इत्यस्थम्भवदे स हस्तिकाय अनस्थिका यस्वः सज्जन्मदे मज्जन्मदे स्वः मज्जन्मते इति मज्जन्मवदे सज्जगाय अमज्जगायस्वः स्वाहाङ्गिले अङ्गिले स्वाय अनङ्गाय स्वः सहात्मने आत्मने स्वह स्वाहात्मने अनात्मने स्वः सः सर्वस्मै सर्वस्मै स्वह स्वाहेति स्वहस्वायुनग् यनक्तो विष्णुः विष्णुस्त्वा त्वायनक्तो यज्ञैः मह्यम् सन्नत्या अमुष्मैः सन्नत्या इति सन्नत्यैः अनुष्मैः कामाय कामाय आयुषे आयुषयद्वा त्वा प्राणाय प्राणायद्वा प्राणायति प्राणाय त्वापानाय अपानायत्वा अपानायत्यपानाय त्वाव्यानाय ज्ञानायत्वा ्युष्ट्यै द्युष्ट्ययित्वा द्युष्ट्यादिष्टियै रयित्वा त्वाराधसय रायित्वा त्वा घोषाय घोषायत्वा घोषाय पोषाय त्वाराधोषाय आराधोषायत्वा आराधोषाय आराध्य प्रच्युत्या इति प्राच्युत्यै त्व अग्नये गायत्राय गायत्राय त्रिवृतेये सर्वदेथन्तराय सर्वदयरित्रयवृते राथन्धराय वासन्दाय राथन्तरायति राथन्तराय वासन्दायाष्टागपालः अष्टाकपाल इन्द्राय अष्टाकपाल इत्यष्टागपालः इन्द्रायत्रैश्वभाय त्रैष्वभाय पञ्चदशाय पञ्चदशाय वार्हदाय पञ्चदशाय इति पञ्चादशाय वार्हदाय अग्रैष्माय ग्रैष्मायैकादशगपालः एकादशकमालो अविश्वयेभ्यः एकादशकपाल इत्येकादशकुमारः विश्वयेभ्यो देवेभ्यः देवेभ्यो जागतेभ्यः जागतेभ्यः सप्तदशेभ्यः सब्ददशेभ्यो वैरूपेभ्यः सब्ददशेभ्यो सब्दादशेभ्यः वैरूपेभ्यो वार्षिकेभ्यः वार्षिकेभ्यो द्वादशकमालः द्वादशकरालमित्रावर्णाभ्याम् द्वादशकपाल इति द्वादशकुमारः मित्रावर्णाभ्यामानुष्टुभाभ्याम् मित्रावर्णाभ्यामिति मित्रावर्णाभ्याम् अनुष्टुभाभ्यामेकवंशाभ्याम् अनुष्टुभाभ्यामित्यानुभाभ्याम् एकविपुंसाभ्याम् वै राजाभ्याम् एकविपुंसाभ्यामित्येका विपुंसाभ्याम् वै राजाभ्या पुंसावताभ्याम् शालाभ्याम् रजस्याः रजस्या बृहस्फले बृहस्फले हेपाङ्ग्राय पाङ्ग्राय त्रिणवाय ऋणवाय शाक्वराय ऋणवाय एदि त्रिणवाय शाक्वराय हैमन्दिकाय हैमन्दिकाय चरुः चतुःसवित्रे चरित्रहादिच्छन्दसाय आदिच्छन्दसाय त्रयस्त्रिपुंसाय आदिच्छन्दसाय इत्यादिच्छन्दसाय त्रयस्त्रिपुंशाय रैवताय त्रयस्त्रिपुंशाय यदि त्रयः त्रिपुंशाय रैवताय श्रीशिराय श्रीशिरायद्वादशकपालः द्वादशपालोदित्यै द्वादशकपाल इति द्वादश गपालः अदित्यै विष्णुवद्मै विष्णवद्यै शरोः विष्णुवद््यायति विष्णवद्निः शरग्नेये अग्नेये वैश्वानराय वैश्वानरायद्वादशकपालः द्वादशकपालो अनुमत्यै द्वादशकपाल इति द्वादश गपालः अनुमत्यै शरोः अनुमत्या इत्यनुमत्तिः शरोः कायः काय एकगपालः एकगपाल इत्येकगपालः यो वै वा अर्दौ अर्धामग्निः अग्निः प्रह्रियते प्रह्रियदेयः यश्च सोमः सोमो राजा तयोरेषः एषादिथ्यम् आदिथ्यम् यद् यदग्निसोमीयः अग्निसोमीयोऽथ अग्निसोमीय इत्यग्निः अथैषः एष रुद्रः रुद्रोयः यश्चियरे यत्सञ्जिरे यत सञ्जिरेग्नौ सञ्जिरयति अग्नावेतानि एतानि हवीगुंसि हवींशिनेष एत, एत, एव रुद्रः रुद्रोशानन्दः दशानन्द उपोत्थाय उपोत्थाय प्रजाम् उपोत्थायन्थाय प्रजाम् पशोन् अग्नावेदानि वेदानि हवीगुंसि हविगुंसि निर्ववधि निर्भवति भागधेयेन निर्ववतीति निति भागधेयेनैव भागधेयेनेति भागधेयेन एव नास्य अस्य रुद्रोषानन्तः अशानन्त उपोत्थाय उपोत्थाय प्रजाम् उपोत्थायत्युपोत्थाय प्रजाम् पशून् प्रजामिति प्राजाम् पशोनभि अभिमन्यते मन्यते दश दश हवीगुंसि अभीगुंसि भवन्ति भवन्ति नव वै वै पुरुषे परुषे प्राणाः प्राणादिति प्राणाः दशमी दशमी प्राणान् प्राणादेव प्राणादिति प्राणान् एव यजमाने यजमाने तथा दशाक्षर अथो विद्यथो दशाक्षर विराट् दशाक्षरे दशाक्षर विराड्न्नम् विराजविराट् अन्नम् विराट् विराट् विराजि विराड् विराट् विराज्येव विराजीति विराजि एवान्नाद्ये अन्नाद्यै प्रति अन्नाद्यैत्यन्नाद्ये प्रतिष्ठते ष्ठा ऋतुभिः ऋतुभिर्वै ऋतुभिरृतोभिः वा एषः एष छन्दोभिः छन्दोभिः स्तोमयैः छन्दोभिरि छन्दःभिः स्तोमयैः पृष्ठैः पृष्ठैश्चेदव्यः चेदव्य इति इत्याहोः आहुर्यत यदेतानि एतानि हवीगुंसि हवीगुंसि निर्भवति निर्भवत् ऋतुभिः निर्भवतीति एवैनम् एनम् छन्दोभिः भे, छन्दोभिः स्तोमयैः छन्दोभिछन्दःभिः स्तोमयैः पृष्ठैः पृष्ठैश्चिनते चिनुते दिशः दिशः सृषवाणेन सृषवाणेन अभिजित्याः अभिजित्यादिति अभिजित्यादित्यभिजित्याः इत्याहोः इत्या आहुर्यत् यदेतानि एतानि हवीगुंसि निर्वपदि निर्वपदि दिशाम् निर्वपतीति निहीमपदि दिशाम् अभिजित्यै अभिजित्या एतया अभिरुत्याभिरिच्यै एतयापि वा इन्द्रम् इन्द्रम् देवाः देवा याचयन् अयाचयन् तस्मात् तस्मादिन्द्रसवः इन्द्रसव एतया इन्द्रसव इति इन्द्रासवः एतया मनुम् मनुम् मनुष्याः मनुष्यास्तस्मात् तस्मान्मनुसवः मनुसवो यथा इन्द्रो देवानाम् देवानाङ्गः मनोर्मनुष्याणाम् मनुष्याणामेवम् एवम् भवति भवति यः एवम् एवम् विद्वान् विद्वानेन्द्र्याः एतदश्याःते दिग्पतीः दिग्वाक्याः दिग्वतीः प्रोणवाक्या भवन्ति क्रोणवाक्या ऋणवाक्याः भवन्ति सर्वासाम् सर्वासाम् दिशाम् दिशामभिजित्यै अभिजित्या इत्यभिजित्यैः यः प्राणतः प्राणतो निमिषतः प्राणतैति प्राणतः निमिषतो महित्वा निमिशत इति निमिषतः महित्वैकः राजा जगतः जगतो बभूव बभूवेति बभूव यईशे ईशे अस्य अस्य द्विपदः द्विपदश्चतुष्पदः द्विपदैरि द्विपदः चतुष्पदः कस्मै चतुष्पदैरि चतुःपदः कस्मै देवाय देवाय हविषः हविषा विधेम विधेमेति विधेम उपयामगृहीतोऽसिमागृहीतः असि प्रजापतये प्रजापतये त्वा प्रजापतयेति प्रजापतये दुष्टम् दुष्टम् गृह्णामि गृह्णामि तस्य तस्य रेद्यौ द्यौर्महिमा महिमा नक्षत्राणि नक्षत्राणि रूपम् रूपमादित्यः आदित्यस्ये ते तेजः तेजस्तस्मै तस्मै त्वा मामहिम्ने महिम्ने प्रजापृदये प्रजापृदये स्वाहा प्रजापदयेति प्रजापृदये स्वाहेति स्वाहा य आत्मदाः आत्मदा बलदायस्य बलदा इति बलदाः यस्य विश्वे विश्व उपासते उपासते प्रशिषम् उपासत इत्युपासते प्रशिष यस्य प्रशिषमिति प्राशिषम् यस्य देवाः देवा इति देवाः यस्य छाया छायामृतम् अमृतम् यस्य कस्मै कस्मै देवाय देवाय हविषः हविषा विधेम विधेमेति विधेम ीते गृहीतः प्रजापदये प्रजापदये त्वा प्रजापदयेति प्रजापदये त्वाजुष्टम् जष्टम् गृह्णामि गृह्णामि तस्य तस्य ते ते पृथिवी पृथिवी महिमा महिमौषधयः औषधयो वनस्पदयः त्वनस्पतयो रूपमग्निः अग्नि से ते तेजः तेजस्तस्मै तस्मै त्वा त्वामहिम्ने प्रजापतये इति प्रजापतये स्वाहेति स्वाहा आ ब्राह्मणः ब्राह्मणो ब्रह्मवर्जसी ब्रह्मवर्जसी जायताम् ब्रह्मवर्जसीति ब्रह्मवर्जसी जायतामा आस्मिन् अस्मिन् राष्ट्रे राष्ट्रे राजन्यः राजन्ये इषव्यः इषव्यः शूरो महारथः महारथो जायताम् महारथ इति महारथः जायतान्दोध्रीः ी धेनुः धेनुर्वोढाः वोढानड्वान् अनड्वानाशुः आशुः सब्दिः सप्तिः पुरन्धिः पुरन्धिर्योषाः योषा जिष्णोः जिष्णो रथेष्ठाः रथेष्ठाः सभेजः रथेष्ठा इति रथेष्ठाः सभेयो युवाः युवा आस्य अस्य यजमानस्य यजमानस्य वीरः वीरोजायताम् जायताम् निकामे निकामे निकामे, निकामे निकामे निकामे निकामे निकामे इति निकामे निकामे नः पर्जन्यः पर्जन्यो परिषदो परिषदफलिन्यः फलिन्यो नवौषधयः ओषधयः पथ्यन्ताम् पच्यन्ताम् योगक्षेमः योगक्षेमो योगक्षेम इति योगः क्षेमः नः कल्पताम् कल्पतामिति कल्पताम् आक्रान् कक्रान् वाजी वाजी अग्नियुजम् युजमकृत अकृतवाजी वाज्यर्वा अर्वा आक्रान् अक्रान्वाजी वाज्यन्तरिक्षम् अन्तरिक्षम् वायुम् वायुङ्युजम् युजमकृत अकृतवाजी वाजर्वा अर्वाद्याम् द्याम् वाजी वाज्या आक्रग्रस्त अक्रग्रस्तसूर्यम् सूर्यंयुजम् युजमकृत अकृतवाजी वाजर्वा अर्वाग्निः अग्निस्ते देवाजिन् वाजिन्युङ् युङ् अरुन्त्वा आरभे रभे स्वस्ति स्वस्तिमाः मासम् सम्पादय पारय वायुः वायुस्ते रेवाजिन् वाजिनियुङ् युङ् त्वा आरभे रभेश्वस्ति स्वस्तिमाह मासम् सम्पारय पारयादिव्यः आदिद्यस्ते रेवाजिन् वाजिनियुङ् युङ् अनुत्वा भे रभे स्वस्ति स्वस्ति माह मासम् सम्पालय पालय प्राणधृग प्राणधृगसि प्राणधृगिति प्राणाधृग असिप्राणम् प्राणम् मेह प्राणमिति प्राणम् मेधृगुह दृगंहम् व्यानधृग यानधृगसि व्यानधृगिति व्यानाधृग असि व्यानम् यानम् मेहे यानमितिवि अनम् मेधृगुम्ह दृगम्हापानधृग अपानधृगसि अस्य पानम् अपानम् मे अपानविद्यपानम् मे दृग् दृग्मह चक्षः चक्षुरसि असिचक्षः चक्षुर्मयि मयिधेहि धेहिः श्रोत्रम् श्रोत्रमसि असिश्रोत्रम् श्रोत्रर्मयि मयिधेः धेह्यायोः आयुरसि अस्यायोः आयर्मयि मेधेहि धेहि जग्दिबीजम् बीजम् वर्षाः वर्षाः भर्जन्यः भर्जन्यः पक्ताः पक्ताः सस्यम् सस्यपुंसपित्पलाः स्वपि विप्पलाः ओषधयः सुपित्पलादि सुप्पलाः औषधे स्वधिचरणा स्वधिचरणेयम् स्वधिचरणेति सोऽधिचरणा इयम् सोपसदनः सोपसदनोऽग्निः सोपसदन इति सो उपसदनः अग्निस्वध्यक्षम् स्वध्यक्षमन्वरिक्षम् स्वध्यक्षमिति सोऽध्यक्षम् अन्वरिक्षकम् सुपावः स्वपावः अवमानः स्वपाव इति सोपावः अवमानः उपस्थाना यौ शिवम् शिवमसौ शीवा असौ तपन्ने तपन् यथा पूर्वम् यथा पूर्वमहोरात्रे यथापूर्वमिति यथा पूर्वम् अहोरात्रे पञ्चदशिनः अहोरात्रे इत्यहरात्रे पञ्चदशिनो अर्धमासाः पञ्चदशिन इति पञ्चदशिनः अर्धमासास्त्रिकंशिनः अर्धमासा मासाः अर्ध मासाः अर्ध मासा मासा मासा कृप्ताः कृप्ता ऋवः ऋतवःशान्द्रः शान्द्रः संवत्सरः संवत्सर इति संवत्सरः आग्नेयोशागपालः अष्टाकपालः सौम्यः अष्टाकपालैद्यष्टागपालः सौम्यश्चरुः चरुः सावित्रः सावित्रो शागपालः चरो रौद्रः रौद्रश्चरुः चरुरग्ने अग्ने वैश्वादराय वैश्वादराय द्वादशकपालः द्वादशकपालो मृगाखरे द्वादशकपाल इति द्वादशाकपालः मृगाखरे यदि मृगाखर इति मृगा आखरे यदि न नागच्छेत् आगच्छेदग्नये आगच्छेदित्या आगच्छेत् अग्नये गम्होमुचे अगुम्होमुचेष्टाकपालः अगुम्होमुचै इत्यगुंहहामुचे अष्टाकपालः सौर्यम् अष्टाकपालयत्यष्टाकपालः वयः पया वायव्यः वायव्यज्यभागः लग्नयेगम् होमुचे अगम् होमुचेष्टाकपालः अगम् होमचैत्यकम् हामुचे अष्टाकपाल इन्द्राय अष्टाकपाल इत्यष्टागपालः इन्द्राय अगम् होमुचे अगम् होमुचे एकादशकपालः अगम् होमचैत्यकम् हामुचे एकादशकपालो हा। मित्रावर्णाभ्याम् एकादशकपाल इत्येकादशाकपालः मित्रावर्णाभ्यामा गोमुद्भ्याम् मित्रावर्णाभ्यामित्रावर्णाभ्याम् आ गोमुद्भ्याम् आगोमुद्भ्यामित्यागोमगभ्याम् यस्या वायो सा वित्रः वायोसा वित्रहा गोमुभ्याम् वायो सा वित्र इति वायोसावित्रः आ गोमुग्भ्याम् चरुः आगोमुभ्यामित्यागोमगभ्याम् चरोश्विभ्याम् अश्विभ्यामा गोमुभ्याम् अश्विभ्यामित्यश्वीभ्याम् आगोमुग्भ्याम् धानाः आगोमुभ्यामित्या इति मरुदभ्यः एनोमुभ्यः सप्तकपालः एनामुद्भेत्ये नामकेभ्यः सप्तकपालो विश्वेभ्यः सप्तकपाल इति सप्ताकपालः विश्वेभ्यो देवेभ्यः देवेभ्य ए नामुभ्यः एनामुग्भ्यो द्वादशकपालः एनामुद्भेद्ये नामकेभ्यः द्वादशकपालोऽनुमत्यै द्वादशकपाल इति द्वादशागपालः अनुमत्यै चरुः अनुमत्या इत्यनुमत्यैः चरुरग्नेये अग्नेये वैश्वानराय द्वादशकपालः द्वादशकपालोद्या वा पृथिवीभ्याम् द्वादशकपालैरि द्वादशाकपालः या वा पृथिवीभ्यामहम् होमभ्याम् या वा पृथिवीभ्यामिति द्या वा पृथिवीभ्याम् अहम् होमभ्याम् द्विगपालः अहम् होमिभ्यामित्यगुम्भ्याम् द्विगपालैरि द्वेकपालः अग्नेसम् अनमद्यथा यथाग्निः अग्निः पृथिव्या पृथिव्या समनमद् समनमदेवम् समनमदिति सम् नमद् एवम् मह्यम् मह्यम् भद्राः भद्राः सन्नदयः सन् सन्नतय इति सन्नदयः सन्नमन्तु नमन्तु वायुवे वायुवेशम् समनमद् अनमदन्तरिक्षाय अनमद्यथा यथा वायुः वायुरन्तरिक्षेण सूर्याय सूर्यायसम् समनमद् अनमद्दिवे दिवेशम् समनमद् अनमद्यथा यथा सूर्यः सूर्यो दिवा यदा चन्द्रमसे चन्द्रमसे सम् समनवद् अनवन्नक्षत्रेभ्यः नक्षत्रेभ्यः सम् समनवद् अनवद्यथा यथा चन्द्रमाः चन्द्रमा नक्षत्रैः नक्षत्रैर्वरुणाय वरुणाय सम् समनवत् अनवदद्भ्यः अभ्यः सम् अभ्यैत्यः समनवद् अनवद्यथा यथा वरुणः वरुणोद्भिः अभ्यः साम्ने अभ्यः समनवद् अनवदृशे रजेसम् समनवद् अनवद्यथाः यथा साम समर्च रजा ब्रह्मणे ब्रह्मणेसम् समनवद् अनवद्विषया समनवद् अनवद्यथा यथा ब्रह्म ब्रह्मक्षत्रेण क्षत्रेण राज्ञेः राज्ञेसम् समनवद् अनवद्विषे विशेषम् समनवद् अनवद्यथाः यथा राजाः राजा विषा विषार्थाय रथायसम् अश्वेभ्यः सम् समनवद् अनवद्यथा यथा रथः अश्वैः प्रजापदये प्रजापदयेसम् प्रजापते प्रजापदे समनमद् अनवद्भूतेभ्यः भोगेभ्यः सम् समनमत् यथा प्रजापतिः प्रजावदर्भूतैः प्रजावद प्रजापतिः भूतैः समनमद् समनमदेवम् समनवदम् अनवद् एवम् मह्यम् भद्राः भद्राः सन्नतयः सन् सन्नतय इति सन्नतयः तन्न मन्दौ न मन्द्विदिन मन्दौ रेणवः रेणवो विदताः विदतामन्तरिक्षे विदता इति विदताः अन्तरिक्ष इत्यन्तरिक्षे ते भिन्नः अद्य अद्य पथिभिः पथिभिः सुगेभिरक्षा सुखेभिरितिसूगेभिः रक्षा च क्षणः नोऽधि अधि च सदैव देवब्रूहि ब्रूहिति ब्रूहि नमोऽग्नेये अग्ने पृथिवीक्षिते पृथिवीक्षिते लोकस्पृते पृथिवीक्षित इति पृथिवीक्षिते लोकस्पृते लोकम् लोकस्पृत इति लोकास्पृते लोकमस्मै अस्मै यजमानाय यजमानाय देहि देहि नमः नमो वायवे वायवेन्दक्षिते लोकस्पृदेक्षाक्षिते लोकस्पृदे लोकम् लोकस्पृते इति लोकास्पृदे लोकमस्मै अस्मै यजमानाय यजमानाय देहि देहि नमः नमः सूर्याय सूर्यायदि वीक्षिते विवीक्षिते लोकस्पृदे विवीक्षिते विवीक्षते लोकस्पृते लोकम् लोकस्पृत इति लोकास्पृते लोकमस्मै अस्मै यजमानाय यजमानाय देहि रेहेति देहि यो वै अश्वस्य मेध्यस्य मेध्यस्य शिरः शिरो वेद वेदशीर्षण्मान् शीर्षण्मान् मेध्यः शीर्षण्मान् इति शीर्षण्वान् अश्वस्य मेध्यस्य मेध्यस्य शिरः ुः चक्षुर्वादः पातः प्राणः प्राणश्चन्द्रमाः प्राण इति प्राणः चन्द्रमा श्रोत्रम् दिशः दिशः पादाः पादावान्द्रदिशाः अवान्द्रदिशाः परिशवः अवान्द्रदिशा इत्यवान्द्रदिशाः परिशवो रात्रे अहोरात्रे निमेषः अहोरात्रे इत्यहः रात्रे निमेषोऽर्धमासाः निमेष निमेषः अर्धमासाः पर्वाणि अर्धमासा इत्यर्धमासाः पर्वाणि मासाः मासाः सन्धानानि ऋतवः सन्धानान इति सन्धानानि ऋतवाङ्गानि अङ्गानि संवत्सरः संवत्सर आत्मा संवत्सर इति संवत्सरः आत्मा रश्मयः रश्मयः केशाः केशा नक्षत्राणि नक्षत्राणि तारकाः तारका अस्थानि अस्थानि नभः अभो मापुंसानि मापुंसान्यौषधयः ओषधयो लोमानि लोमानिस्पतयः अनस्पतयो बालाः बाला अग्निः समुद्रः ्यात्तमिति वि आत्तम् समुद्रमुदरम् उदरमन्तरिक्षम् अन्तरिक्षम् वायुः वायुद्यावापृथिवी द्यावापृथिवी आण्डौ द्यावापृथिवी द्यावापृथिवी आण्डौ ग्रावा ग्रावा शेपः शेवः सोमः सोमो रेतः रेतो यद् यज्जञ्जभ्यते जञ्जभ्यते तत् तद्विद्योतरे द्योदरे यत् यद्विधोनदे विधोनतेतत् विधोनुत इति विधूनरे तत्स्तनयति स्तनयतेहति मेहति तत् तद, तद्परिषदि परिषदि वाग् वागेव एवास्य अस्य वाग वा, वागहः अहर्वै वाश्वस्य अश्वस्य जायमानस्य जायमानस्य महिमा महिमा पुरस्ताद् पुरस्ताज्जायते जायते रात्रिः रात्रिरेनम् एनम् महिमा महिमा पश्चाद् पश्चादनौ अनुजायते जायत एतौ एतौ वै वै महिमानौ महिमानावश्वम् अश्वमभितः अभितः सम्बभूवतुः बभूवतुरहयः हयो देवान् देवानवहर अवहदर्वाः अर्वासुरान् असुरान् वाजीवाजीगन्धर्वान् गन्धर्वानुश्वः अश्वमनुष्यान् मनुष्यान् समुद्रः समुद्रो वै वा अश्वस्य अश्वस्य योनिः योनिः सप्तमकाण्डे पञ्चमः प्रश्नः समाप्तः सप्तमकाण्डम् च सम्पूर्णम् इति श्रीकृष्णयजुर्वेद तैत्तिरीयशाखासंहिताक्रमपाठः समाप्तः श्रीकृष्णार्पणमस्तु ओ